त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि अथ लोकान् समस्तांश्च विजित्य समहासुरः भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः सलिलञ्चान्तरिक्षञ्च नक्षत्राणि दिशो दश अहं क्रोधश्च कामश्च वरुणो वसवोर्यमा धनदश्च धनाध्यक्षो यक्षः किं पुरुषाधिपः एते भवेयमित्युक्त्वा स्वयम्भूत्वा बलात्स च स्थानी त्याण्यवापसह युश्चासीमखवर सतैर्देवर्षिम नरकस्था सनीय स्वर्गस्थस्तासमीन कर्मा कृत्वा दैत्यपतिर्बली आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् सत्यधर्मपरान्दान्तान् पुराधर्षितवांश्च सः यज्ञीयान् कृतवान् दैत्यानयज्ञीयांश्च देवताः